ं मानुषं रूपं बिभ्रतीं सुमनोहरं पुंस्कामां शङ्कमानश्च चुक्रोधपुरुषादकः सङ्क्रुद्धो राक्षसस्तस्य भगिन्याः कुरु सत्तम उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् कोहि मे भोक्तु कामस्य विघ्नं चरति दुर्मतिः न बिभेषिः डिम्बे ित्वा मसति पुंसा मे यानि मानाश्रिता कार्शीर्विप्रियं सुमहन्म एष तानद्य वै वधायाभिपपातैनान् दन्तैर्दन्तानुपस्पृशन् तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरताम्बरः भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चब्रवीत् वैशम्पायन उवाच भीमसेनस्तुतं दृष्ट्वा राक्षसं प्रहसन्नि वा भगिनीं प्रति संक्रुद्धम् इदं वचनमब्रवीत् किं ते हिडिम्ब एतैर्वा सुखसुक्तैः प्रबोधितैः मामासादय दुर्बुद्धे तरसा त्वं मय्येव प्रहरे हि त्वं न स्त्रियं हन्तुमर्हसि विशेषतो न पकृते परेणापकृते सति न हीयं स्ववशा बाल कामयत्यद्यमामिह तोदितैषा ह्यनङ्गेन भगिनी तव दुर्वृत्ता रक्षसां वैय्यशोहरा त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च कामयत्यद्य मां भीरुस्तव नैषापराध्यति अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि मयि तिष्ठति दुष्टात्मन् न स्त्रियं हन्तुमर्हसि सङ्गच्छस्व मया सार्धम् एकेनैको अहमेको नयिष्यामि त्वामद्ययमसाधनम् अद्य मद्बलनिष्पिष्टं शिरो राक्षसदीर्यताम् कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः अद्य गात्राणि ते कङ्काः श्येनागोमाय वस्तथा कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे क्षणेनाद्य करिष्ये राक्षसं पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् अद्य त्वां भगिनी रक्षः कृष्यमाणं मया सकृत् द्रक्ष्यत्यप्रतीकाशं सिंहेनेव महाद्विपम्